ओ रात्रिव्यख्यदा यति पुरुत्रा देव्या अक्षभिः विश्वा अधिसृजो पूर्वप्रा अमर्त्या निवतो ओ देव्यो उद्बताः ज्योतिषा बाधते तमाः निरुस्मसा आरमस्कृतोषसन्धेव्या आज अपेदुहासते तमाः तानो अद्यजस्या भजन्नि तेजामन्दविक्ष्मही भृक्षे न वसतिं वजाः निग्रामा आसो अविक्षत निपद्वन्तो निपक्षिणाः निश्येन सश्चिदर्थिनाः यावजा आवृत्या अंवृकञ यवजस्ते न मो ऊङ्ये अथा आनः सुतरा आभव उपमापेऽपि सप्तमःष्णम् व्यक्तमस्थिता उपतेगा इवाकरम् वृणीष्व दुहितर्दिवः रात्रिस्थो मन्दजिग्युषे ओम् शान्तिः शान्तिः शन्तिः